स्मायतु प्रतवदेतुराय प्रयोहन्स्तोमम् माहीराय विजेहेरमायाद्धीरवको ग्राय ब्रह्मा निरात वा अस्मायतु प्रजाय प्रयम् शिवराम्याम् घोषममाधेः सुभक्ति इन्द्राय हृदामनाशामनीषा प्रयवत्येधिरोः मर्जयन्त अस्माभि सत्यमुपमम् स्पर्शाम्भराम्य घोषमास्येना बं ह्यष्ठमक्षोक्तिभर्मतीनाम् सो वृत्तिभिः सूलिम् वा बृध्यै अस्मानि दुस्तोमम् सङ्गीनो विरथन्नतष्टेव तत्सीनाय गिरश्च गिर्वासुभृक्तीन्द्राय विश्वमिन्मम् मेधीराय अस्माभिव श्रवश्चेन्द्राय कम् जुह्वा आमञ्जे वीरन्दानोगरम् मन्मध्ये पुराङ्गोर्तश्रवसम् धर्माणम् अस्माभिर्तृष्टा दक्षद्भज्राम् समस्तमम् वर्या आ वृद्धिस्तु अस्े तो मातु सवेशु सद पिटुंबिवां तिरो अद्रिमस्ता अस्माश्चिदिंद्र याकमागत परिद्यावाः पृथिवी भ्रगुर्वीरास्य देव हिमानम् परिष्टः अस्यैदेव प्ररीरिजे महित्वम् दिवः पृथिव्याः पर्यन्तरिक्षाय स्वरालिङ्ग्रोदमा ईश्वरोर्तस्वरि रवत्रोपवक्षेरणाय अस्यैदेव शवसा सुन्दम् विवृष्टन् भज्रेण दानौ राण अवनीरवञ्चदभिश्रवो दावने स चेताः अस्त्येतुम् क्लेशसाहारम् तव परि यद्वज्रेण सेवयच्छद् ईशानगृन्दासुरेण दर्शन्तुर्वीतजय गाधम् तुर्वणिः कः अस्माय प्रभातू दू जानो वृत्रा जय वज्रमीशारः विरास्याध्यस्ेतु प्रब्रोर्व्याणी तोरस्तमा युधे दिषा आयुधानृायाद कस्ेदिजागिरज दृंडाचावा चूमा जनुस्तुते उपोहो रेणस्ते जोगो बालकोणिम् सद्यो भूवद्भीर्याः जदोधाः अस्मादुर्तदनुदाय्यैषामेको यद्व्रे भूरे प्रैतशम् सूर्ये पस्प्रधानम् संवर्ष्मेऽस्मिन्द्राः देवाते हारियोजना सुक्तीन्द्रब्रह्म हारिगोतरमासो अक्रह् ऐषो विश्वपेरसंगन्धा प्रातम् अक्षूधिजाः शुद्धगम्यार येकनिद्धम् यश्चणीनामिन्द्रम् तम् निर्भिरभ्यर्चाभि यत्येते वृषभो पितरो न वग्वाः सप्तविप्राः सो रक्षद्पामम् ततोरिम् पर्वतेष्ठावद्रोघवाचम् मतिभिश्वविष्ठम् कविः मह इन्द्रमस्य राजः पूर्ववीरस्य सर्वतः पुरुक्षोः योऽस्क्रेसो युरदः स्पर्भान्तमाभरहरिवो मादयध्यै तन्नो विवोचो यदीते कस्ते भागः किंवयो दुद्रखिद्ध पुरुहूतपुर्वजो दुर्घः तम् पृच्छन्ति वज्रहस्तम् वधेष्ठाविन्दम् वेबी वक्परि यस्य लोगीः तु विग्राभम् तु विकोर्मिम् रभूदाङ्गातुमीषे लक्ष्यते तुम्राम च अयाहत्यम् मायया वावधानम् मा अच्युतास्वोजोरुजो विदृढाभिरक्षिन् तम् वोधिजानम् यस्य शविष्ठम् रत्नम् रत्नयवत्पादिशंसायध्ये सनो वक्षतरिमानः सुवर्णेन्द्रो विश्वान्यति दुर्गहाणि पाजलाय दृग्पाणि महाक्षेवानि दिव्यादे दीपयोऽन्तरिक्षा तपाः वृषम् विश्वतशोताम् भोजनस्य दिव्यस्य राजा पार्थिवस्य जगदस्तेषतन्द्रज विश्ववज्रम् दक्षिण इन्द्रहस्ते विश्वः अजुर्यदयते विमायाः आसंयतमिन्द्रणः स्वस्तिम् शत्रुतोर्यबृहती वृद्धा यया दासान्यार्याणि वद्रागरो वज्रन् सुतानाभूषाणि सदोः ऋजुद्भ्यः पुरोहोदवेधो विश्ववाहाराभिरागाह्यप्रयज्ञो प्रजा देवो वरदे तदेव आभिरिजाहि मामद्रद्रि यस्तिमशङ्गो वृषभो न भीमदेकः कृष्ट्येष्ठ्यावदतिपि च विश्वाः यः शश्वतो अदाः शुशो गयश्च प्रयन्ताय वेदा त्वम् अत्यदिन्द्रुत्समाव शुश्रूषमाणस्तम् वा समर्ये दासम् यक्षुष्टम् कुज वन्यस्मारम् प्रमोरो कुत्स्यम् नृदर्शमावक्षेत्रशाम् न मणो देववीतौ भूरी निवृत्ताहर्यश्वहंसि निवेशदेश तत माविशिनहम् च वृत्तन्नमूचिषुदाहम् सलातातरिन्द्रभोजनादिरातहञ्जायदासुरे सुदासे कृष्णे ते हरिहर्षणाजुनज्ञव्यन्त ब्रह्माणि पुरुषाकवाजम् मादेः अस्याम् सहसावन्परिष्टावघाय भूमहरिवः परादै राय स्व नो वृकूथस्तव प्रिज सूरी सैव प्रदे मगवन्न भीष्टौ नरो मधेमचरणे सखा निशा जिग्वाजय श्रद्यिन्ते मगवन्नौ नर शंस्युत्था उत् एते हवेस्मान् व्रेणीश्वद्याः तस्मै एते स्तोमाह नरान्द्रवनुभ्यमस्मद्यम् चोदयतोमघानि केशामिन्द्रवृत्रहत्येः शिवो भूः सखा चूरोविता च वृणा नो इन्द्रशोरस्तव मानभूति ब्रह्मजूतस्तन्वाहातः स्म ो आजाहन्निवेश्युपस्थीन्यूयम् पादस्वस्तिभिस्तदा नयाशिशुषोपाधितरिन्द्रसोमम् इमम् एदम्बरेस्तदो मम आत्त्वा ब्रह्म युजा हरिवहतामिन्द्रकेशिराः उप ब्रह्माणि न शृणु ब्रह्माणस्ता वयम् युजासो मतामिन्द्रसोमिनाः सुतावम् दाहवामहे इन्द्रमिद्गाथिनोः बृहदिन्द्रमज्यभिरक्षिणाः इन्द्रम् वाणीभिरलोषता इन्द्रनिर्धर्जोस्तमिश्रावचोदिताः इन्द्रोः वज्रीः इन्द्रोः इन्द्रम् वो विश्वकस्परिहवा महे जनेभ्यः अस्माकमस्तु केवलः आन्तरिक्षमतिरम् मदे होमस्य रोचना इन्द्रो यदभिरन्वरम् मुद्गाजरङ्गीरोम्याविष्कृण् सन् अर्वाञ्चम् नुदेवलम् इन्द्रेण रोचनादिरोतानी च स्थिराणि न राणुदेः अभावोर्मिर्मदन्निवस्तोमरिन्द्रादिराजते विरे मदायिणो इन्द्रेण सम्निरक्षेदम् जङ्मानो अभिभ्युषा मन्दो बहमानवर्चसा अनवन्यैरभिद्योभिर्मखः सह स्वदर्जति गणेरिन्द्रस्य काम्यैः आदह स्वधामनोर्गभर्तमे दधाम यज्ञम् इन्दोः वधीजास्तभिर्भृत्राण्यप्रदिष्कृतः जघाननवीर्म इच्छन्नश्वस्तयचयः स्पर्वाते श्वश्रिताम् तद्दि अत्राह गोरमन्मत नाम तिष्ठाचन्द्रमयसो गृहे पाचमष्टापादीमहम् नवस्रग्निवृतस्पृशम् इन्द्रात्मजीतन्दम् अनुत्वा नोदयसीहे कक्ष्यमाणमृधवेदः इन्द्रयद्धस्यः उत्तिष्ठन्नो जयसातः प्रे अवेपयः सोममिन्द्रचमूसुतरम् विन्धि विश्वापृशः परिपाधो जहीवृधाः वसस्पाशम् ददाभार यद्वीराविन्द्रेत्पर्षाः ते पराः भृतम् वसवस्पाशम् ददाभार यस्य ते विश्वमाहारुषो भूरे दत्तस्य वेदति वसस्पाशम् ददाभार प्रथम् राजम् चर्षणीनामिन्द्रम् स्तोताधव्यम् गेर्भे मम ज्येष्ठम् यस्मिन्नुत्था निरण्यम् दिविश्वाहारिदर्शवस्या अपामवोरस मुन्द्रे त्वम् सुष्ठुत्याबीवासे ज्येष्ठराजम्बरेः कृत्नम् महायम् सनिभ्याः अयमूते समादसि कपोतरिव गर्भाधिम् वचस्तच्छिन्नवोहसे गिर्वाहो वीर से ग्रत स्वन्ु प्रभावै प्रणेदारंभ से कर्ताज्योतिवत्सु सा साम स्वनः पद्विर्वारजाति स्वस्तिरा वापोरुहूतः इन्द्रो विश्वा अतिर्विषाः सत्वम् न इन्द्रयाजे भृदश स्याच गातुजात हन्तवे समृषा विषय इन्द्रः सदामाने कृतवोदिष्टः समदे हितः यम्ने श्लोके च सौम्यः गिरावज्रो न सम्भृतस्तपादो अनपच्युतः अलक्षरश्व अस्त्रेतः इन्द्रमिनो बृहेन्द्रवक्त्यभिरक्षिणाः इन्द्रम् वाणीरलोषस इन्द्रनिर्धरिजोस्त च संमिश्र आवचोयिता इन्द्रोः वज्रीरन्यजाः इन्द्रो दीर्घायक्षस आसूर्यम् दोहयद्दियत् आयाशुषो माहित इन्द्रसोमम् पिबादिमाम् एदम्बरिः सो मम आत्त्वा ब्रह्म युजाः देवः तामिन्द्रकेशिराः उपब्रह्मा विरशृणो ब्रह्माणस्तावयम् युजासोमपामिन्द्रसोमिनाः सुधावन्तो हवामहे इञ्जन्ति भ्रध्रमानुषञ्चरम् तम् परी तस्थुषाः रोचन्ते रोचनादिवि इञ्जन्त्यस्तेलाम्याहरि विपक्षसारथे श्रोणाः धृष्णो निवाहसा केतुम् कृण्वन्न केतवेपेशोः पर्या अपेषसे समुषद्भीरजायथाः पुनृत्यम् जातवेदसम् देवम् वहन्ति केतवाः विषये विश्वाः य सूर्यम् अपत्येतायवो यथा नक्षत्रायम् चक्षुभिः सूराय विश्वचक्षुषे अदृष्टम् अस्य केतवोऽभिरश्मयोजनाम् मनो राजन्तो अग्नयो यथा प्राणिर्विश्वदर्शनोद्यो चक्रितो विश्वमाभा <coughs> प्रत्यङ्गेवानाम् विषः प्रत्यङ्गुदेष्मारोषीः प्रत्यङ्गविश्वाम् स्वदृशे एनाः पावगचक्षसाभुरण्यन्तम् जनान् ननु संवरुणपश्यति विद्यामेमाहानो अक्तुभिः पश्चिम् जन्मा हरिसोरिज सप्तत्वाः हरितोरथेव हन्ति देवसोरिज शोजिष्केः संविदक्षणम् अयुक्तसप्तशुन्ध्युवः सोरोरथस्य नत्याः प्राभिः अभित्वावर्चासागिरस्मिन् चन्ति राचरण्यवाः अभिवत्सन्नधेनवाः हर्षन्ति शुभ्रियः प्रञ्चन्तेर्वच्च सा प्रियः जातम् धात्रेर्यथा हृदा वज्रादोरसाध्यक्षेतिर्मृजमाणमागारमायभृलम्बनाः आयङ्गो पृश्नेरकमेतसान्मातलम् भुरः वितरम् च प्रयन्साः अन्तश्च रतिरोधणा अश्च प्राणादपादः यः त्रिंशद्धावाविराह यदि वाक्प्रातङ्गो आधिश्रय प्रतिवस्तो रहद्युभिः यच्छक्रावाचमनुहन्नन्तरिक्षम् विशासदेव आमदमृषाः शक्रोवाचयमधृष्टुः मन्धिष्ठामदर्दि शर्क्रोवाच मधृष्टिः धामधर्मम् निराजति विवादम् परिहिलासरन् तम्बो दस्मवृदेश हन्मो मनन्दानवन्धसः अभिवत्सन्न श्वसारेषु तेन वजिन्द्रम्भ्यन्न वामहे दुक्षम् सुदानम् तवीषेभिरावृतम् गिरिन्नभूरुभोजसम् जम् सदिनम् दहस्त्रिणम् अक्षूमम् तद्ब्रह्म पूर्वजत्तरे येनायतिभ्यो भृगमेहे हितेनेन प्रस्कण्ड मावीथ येना समुन्द्रवसे ग्रोमहीरवस्तरिन्द्रवृष्णीदेशवाः सत्यस्वास्य महिमानसन्नते कन्नव्यो अदीराः न हीम् नस्य महिमानमिन्द्रियम् स्वगृणन्त आनयश कदुस्तुवन्तरतयन्तदेवतरे कोऽपि प्रबोभते कदा वम् मुघवन्निन्द्र सुन्दरतर कदुस्तुवत आगमः अभिप्रवः सुराधतमिन्द्रवच्च यदा विदे योजरितृभ्यो मघवः पुरो वसुः सहस्रेणेव शिक्षति शतानी देव प्रतीकानि दृष्टो जाहन्ति वृत्राणि दाशुरे गिरे प्रवशाः स्युरो भोजतः प्रदर्शम् सुराधय मत्याः शक्रमभीष्टादे यस्तुन्वतेस्तु मते शतानीः का हेतयो अस्य दुष्टराजेन्द्रस्य शमिडो गणीः गिरिर्नगवत्स्वपिन्वते सुता अयम् जत्वा सुतावम् तापोनृक्तवर्षिणः पवित्रस्य प्रस्त्रवर्णेषु वृत्रहन्वरी गोतार आसदे स्वरम् ज्यत्वा सुतेन रोपसो तिरेकमुखिनाः कदा कागमे स्वतन्त्रे शाणवो गागम इन्द्रस्वब्देव वंसः कण्मेष्णयवाधिषर्द्वाजम् दर्शितः स्त्रिणम् विजङ्गरूपम् रघवन्विचरिषवेक्षूगोमन्त भीमहे कैम् वेद सुतेर चापि भवन्तम् गद्वजो दधे अय्यः पुरोः विफेनत्योजयसा मन्दानश्चिप्रन्धयतः ृगोणवाहारणः पूर्वत्राचरसन्दसे न विष्टानिय मदा सुते गवो महांश्चरस्योजयसा य भुग् सन्नतस्थिरोरणहसंस्कृतः यदि स्तो दुर्मघवाः शृणबद्धवन्नेन्दो दोषत्यागमत विश्वापृतभिभूतरम् नरम् सजोस्तदक्षुरिन्द्रम् गजलश्च राजसे कृत्वा वरिष्ठम् वर आमुरिमुतो जनोजिष्ठम् तव सम् तरस्मिनम् स्वरीयम् रेभासोऽस्परम् निन्दम् सोमस्य पीतये स्वर्वदिम् यदीयम् वृधे दृतौ व्रतो ह्यो जयसाभूतिभिः नैव चक्षा मेघम् विप्राभिस्मरा स्मरीतयो वोद्रुहोऽभिकर्णे तरस्मिनः समक्त्वाभिः अविन्द्रम्घवारमुग्नम् सत्रादधानमप्रतिष्कृतम् शवांसि मम् ह्यष्टो गेर्भिराजयज्ञिनो वर्तद्राजेनो विश्वासुपथाः कृणोतु मज्जी जायिन्द्र आभरस्पर्वा असूरेभ्यः स्तोतारविन्द्रघवन्नश्च वर्धनजयचर्त्वे रक्तपरिषिषः यमिन्द्ररधिषे त्वमस्वङ्गाम् भागमव्ययम् यजमाने सम्मति दक्षिणामति तस्मिन् दन्धे हिमापणौ इन्द्रो मदाय वृधेशवासे वृत्रहाभिः तमिम् महत् स्वादिषूते ब्रह्मे हवामहे शवादेशप्रणोविशत् असि हिमीहरति अशीतभ्रस्ते यद्वृथो यजयमानाय शिक्षसि संवते भूरि देवसो यदुदीरत आजयो धृष्टवे धीयते धराः युक्ष्वामदच्युताः एकम्भरः कम्बसौ कंगा दधोऽस्मासो दधः मलय देहिनो दुर्यूथा गवाः पृजक्रतोः शङ्गेभाय पुरुधोभाया हस्त्या वसुश्रिहिरायाभार पादयः स्वसुते स च शपदेशूर राधासे विद्वाहित्वा एते त इन्द्रजन्तवो विश्वम् पुष्यन्ति वार्यम् अन्तर्शिक्ष्यो जनाः नामर्यो वेदोदासुषाम् तेषाम् न वेदाभार स्वरूपकर्तृभूतरे सुदुभाे द्य विन्य उपस्तोमस्य सोमवास्ति वा गोदादिद्रेवतोमदाः अथा ते अन्तमानाम् विद्यापसुमतीनाम् मानो अतिख्यनागहि शुष्मिन्त्रमन्नभूतरे दिम्निलम् पाहि जाग्रीविम् इन्द्रियाणीषदग्रतो जाते जनेषु पञ्चतो इन्द्रकाली आवृणे अगन्विन्द्रश्रवो बृहद्यम् नन्द्रधिष्वधुष्टरम् उक्ते सूक्ष्मम् तिरावति अर्वावतो नागह्यथो चक्रपरावताः पुलोको यस्ते अद्रिव इन्द्रे शत आगहि इन्द्रो अङ्गमहद्धिशुध्यवत् सहिः स्थिरो वितर्षणिः इन्द्रश्च मृदयाः दिनो ननः पशलादघम् दर्शत् भद्रम् भावादिनः पुरः इन्द्राशाभ्यस्पतिसर्वाभ्योभाजम् करत् ज्ञेता शत्रोन्वितर्षणिः कयेयम् वेदसुतेत चाभिमन्त्रम्बोधे अय्यः पुरोदयसावन्दानशिप्यन्दसः दानामृगो न वाहारायणः पोरुत्राचरसन्दधे न कष्टानिजर्मे गमो महांश्चरस्योजयसा युग्रः सन्नक्षदष्ठिरो संस्कृतः यदि स्तोत्रम् मघवा पवित्रस्य प्रस्रवर्णेन वृद्धहन्वरि स्तोतार आसते स्वरम् ज्यत्वा सुतेन लोकसोहोदेकमुखिनः कदा सुतन्त्रेषाणवोगः इन्द्रस्पब्दीयसरः कण्डेष्टिषद्वाजम् धर्षितः स्तृढम् विजङ्गरूपम् मघवन् दर्शने मक्षू गोमन्तमीमहे श्वेरिन्द्रस्य भक्षतूनि जाते जनमानवोज सः प्रतिभागम् मनीधिव अननिधरादिम् वसुधामुपस्तु हि भद्रादिन्द्रस्य रातराः शोभस्य कामम् विधतो नरोषधिमनोद्दानाय चोदयन् बण्वहादित्यमहाधि महस्ते सतो मा शिवापालस्य देब्धा देव महासि भक्षोर्यश्रवासा महापासि सत्रादेव महाकासि महादेवानामसुर्यः पुरोहीतो विभुज्योतिरदाभ्याम् उदुत्ये मधु शरीरते सत्रादितो धनसातो वा जयन्तो रसादिव कण्वारिव मृगलः सूर्यादिव विश्वनिधमादशो इन्द्रम् स्तोमेभिर्म हयन्तायवः प्रियमेधालोस्परन् उदिन्वश्च तेन्द्रो धनम् न दिव्युधाः जयन्द्रो हरिवान्नदभन्दिरम् रिपो दक्षम् दधाति सोविनि मन्त्रमखर्वम् सुधीतम् सुपेशम् दधाहत पूर्वेश्च न प्रथीतरस् य इन्द्रे कर्मणा भुवज एवाश्य से विरजु देवालोर उत स्थिरः एवाते राज्यम् मनाः वत्स्वाः सुतस्य गोमतः एवाह्यस्य सुमृताः विरक्षी गोम दीमि पक्वाशाकालदाशुरे एवाहि ते विभोदयभूतय इन्द्रमावते सद्यश्चित् सन्ति तासुरे एवाह्यस्य काम्यास्तोममुक्थम् च शंस्याः इन्द्राः जय तन्ते मरम् गृणीम शेषणम् प्रत्युधाः सहिम् पुलोककृत्रमन्दिवो हरिश्रियम् येन ज्योतींशाय वेमरा वे च विवेदीथा मन्दानो अस्य वर्षणो विराह यदि प्रदद्याचित्तमुक्थिरो दृष्टुवन्ति पूर्वथाः वृषपत्नीरमोलिवेदीवे तम् अभिप्रगाहयत पुरुभूतम् पौरुष्ुताम् इन्द्रनम् येर्भिस्तविषमाली वासत यस्य विवर्घसो बृहत्सो दाधार रोदसी किमवस्वना सडाः रष्टुतम् एको वृत्राणि जिघ्नसे इन्द्रजेत्राः श्रवस्याः च यन्तवे वयमुत्वामपो यष्ठोरम् न कर्चिदन्तो वश्यवाः जो जो जे चित्रम् भवामहे उभत्वा कर्मम् नूतये सरोजभोग्रश्च ग्रामज्योधिषज स्वामिध्यवितारम् वृदहे सखाः जय इन्द्रसादशिम् इदमेदम् पुरा प्रवश्चे सखाः जय इन्द्रभूतजे हर्यश्वम् सत्त्वादिम् च ऋषणे तहाम् सैष्माजो अवन्दत आदुम्रिलभ्य वष्पम् स्तोत्रभ्यो निन्द्रायहामगायत विप्रहार बृहदे गज घर्मकृतेः विपष्टितेः पनस्य वेः त्वमिन्द्राघोरासि त्वम् सौर्य मलोचयः विश्वकानुविश्वदेवो महासि विभ्राजम् ज्योतिषास्मा आरक्षो दिवः देवास्त इन्द्रसख्याय ये विले तम् अभिप्रगाः यत पुरुहूतम् पुरुष्टुतम् इन्द्रम् येभ्यस्त विषमाविभासत यस्य जिवर्हतोधार रोदधि गिरीम् वज्राहम् अपस्पर्गृहन्त्वः जि पुरुष्टुत रुत्राणि जिघ्नसे इन्द्रजयित्रार्षवस्या च यन्तवे इमानुकम् भुवराशेष धावेन्द्रश्च विश्वे च देवाः यज्ञम् च रस्तन्वम् च प्रजाम् चादित्यैर इन्द्रः हात्वाय देवा असूरान्त्यराजम् देवादेववत्तासुभिरक्षमाणाः प्रत्यञ्च वर्गमानजम् जयजिक्षवधाम् पर्यवश्यन् अयावाजम् देवहीतम् सदे मम देवशतहीवाः सुगीराः गजद्विदयदेव सुमत्ता यदासुषे ईशा न अप्रतिष्पुत इन्दोः अङ्गा कदावत्तराधसम् पदा क्षुम्प्रमिव स्फुरत् कदा न श्वश्रवद्गिरजिन्द्रोः अङ्गा यच्छिद्भिद्वाः बहुभ्यः हृतावाविवाः सति उग्रम् तत्प्रत्यदेशवलिन्द्रोः अङ्गा यजिन्द्रोमपात वो मदश्च विष्टचेतदि येनाहम्सिन्या आत्रिणम् तमीमहे ्रमाविधातमीमहे येन सिन्धुम्बोधाः इव प्रचोदयाः वन्थाः कृतस्य जातवेतमीमहेन्द्रेदो गिप्रियस्तत्राजितगो ह्यः एश्वतस्पृशः पतिर्दिवः ुभे इन्द्राशी सुम्वतो वृधः पतिर्दिवः दत्ता पुरामसि हन्तादस्योर्मनोर्वृधः पतिर्दिवः ये सुबन्धोः मदन्तरम् सिञ्चलाभरिजो अन्धसः एवाहिरस्तव सदा वृधः इन्द्रस्थादर्हरीणाम् निष्टे पूर्ण्यस्तोधिम् गुदानं शशवरसालभङ्गला तम्बोवाजा नाम्पतिमहोभरिश्रवस्य वा अप्रायुभिज्ञे धर्मावृधेऽन्यम् एतोऽन्विन्द्रंस्तवाम सखाजस्तोम्यम् नरम् कृष्टीर्यो विश्वाः अभ्यस्ते गजिते अगोः रुधाय गविषे ज्युक्षाय तस्म्यम् वचाः घृतात् स्वाली मधुरश्च वोचत यस्यामितानि वीर्याधः पर्ययेतवे ो नमो वस्तु हि यशर्मम् जवम् सुविद्वान्दम् चकृत्यम् चरणीहीनाम् वज्रहस्तपरिव्रजम् अहरह सुन्दः परिपदामिव मनोदिः सुन्दरम् क्षयम् परेणतः सुन्दानो हिष्माय शक्प्रभल्षो देवानामभर्मिषाः सुन्वा न यत् शेषा सति सहस्राः वाद्यवृतः सुन्बानाभेन्द्रो ददात्याभुवम् नयन्द्रदात्याभुवम् भोषु वो अस्मदभिदानिोस्यासनाभुवम् नम्नानि भोदजाषु अस्मत्पुरोदजाहारिषः यद्वश्चित्रम् युगे योगे नव्यम् घोषादमर्ज अस्मासुतम् ऋतो यच्च दुष्टरम् घृतायच्च दुष्टरं, अग्निम् होतारम् मन्येदास्वन्द्रह्मसुम् सोनन्दहसो जातवेदम् विप्रन्न जातवे दधम् यौवोर्द्वयास्मद्वरो देवो देवाच्च कृपा घृतस्य विभ्राष्टिमरो वष्टिशोचिराजुह्नस्य सर्पिषाः यज्ञैः स्तम् विष्णा प्रषदेष्टिभिर्यामन् शुभ्रासोः अञ्जिषु प्रिया उदा आसत्याः बर्हिर्भारतस्य सूरवोत्रा दासोमम् दिवदादिगोनरः आवक्षिदेवा इह विप्रजक्षी चोसम्भोदायो त्रिषो प्रदी प्रस्थितम् सोम्यम् मधुराग्नेधात्तमभागस्य दृप् एषस्ये तम्बो नृम्रवत्सः प्रतिवेदः तुभ्यम् सुतो माघवन्तभ्यमास्तमश्च ब्राह्मणीव यमपूर्वमहोवेतमिदम्भूवेसे दुहम् यो दधिो नाम पद्यते अध्वर्यभिः प्रस्थितम् सौम्यम् मधु गोत्रात् सोमम् द्रविनोदः पिव ऋतुभिः स्वरूपकर्तृमोदरे सुदुभाविव गोधुभे युगोमधि विद्ये उपनस्तवसोमस्य गोमपाः पिव गोदा इन्द्रेव तोमदाः अथा गे मानो नो आतिगही परे ही विग्रहस्त्रतापक्षित यस्तेखिभ्य आवर उत ब्रूमंत मोनिद निरन्तदार इंद्र युद्धुवा भगास्म कृष्ट श्या हे माशुमाशवे भरयज्ञश्रियम् रमारणम् पतम् द्रव्यत्सखम् अस्य पीत्ता शतक्रतो घनो वृत्राणाम भवः प्रावो वाजेषु वाजिनम् हन्तावाजेषु वाजिनम् वाजयामश्च तक्रतो घनामिन्द्रसातरे यो रायो ोपारस्तुम् मतः सखा तस्मादिन्द्राय गायत आत्मेतानिषीदयेन्द्रमभिप्रगायत सखाय गोपवाहसः पुरुतमम् गुरुणा वीशानम् मारजाणा इन्द्रम् सोपेशः सुते सखाः नो योगा भूवत्सराजे सपुरम् ध्या जेऽभिदासदाः यस्य संस्थेन वृण्वते हरी समत्सुतशत्रैव तस्मादिन्द्राय गायत सुतवाम्ने सुतादिपेषु च योजन्ति पीतरे सोमाः सोदध्याः शिरः त्वम् सुतस्य पीतरे सद्यो वृद्धो अजायथाः इन्द्रज्येष्ठ्याय आत्मा विशन्दाशवः सोमः सजिन्द्रकिवणः शन्दे सन्तुप्रचेदे त्वाम् स्तोशतग्रतो त्वाम् वर्धन्तु नागिराः अक्षीतो च सेमम् वाजमिन्दः सहस्रिणम् यस्मिन्निष्वा विपंस्याः नो मर्ताः अभिद्रोहम् न नूनामिन्द्रजर्वणः ईशाः नोयवयावधाम् इञ्जन्ते वर्धवरुषञ्चरन्तम् परीतस्थुषाः रोचन्ते लोचनादिवे इञ्जन्त्यस्य काम्या हरि विपक्षधारथे शोणाधिष्णो निपाहसा केतुम् कृण्वन्न केतवेपेशो मरिजापेशे संषद्भिरजायथाः आदहस्पधा मनोभर्गभत्वमेः रिले दधाम यज्ञियम्बह्ने अविन्दवुस्रियादो अभी देवजन्तोजः मतिमच्छाः विदत्त्वादम् गिराः महापादोषतः श्रुताम् इन्द्रे रथम्भिरक्षाशेषम् जग्मानो अभिभ्युषा मन्दोदरमानवर्जता अनवद्यैरभिद्योभिर्मखः सह स्वजति गणेन्द्रस्य काम्यैः अरः प्रयज्वन्नाग हि दिवो वा रोचनादधि समस्मिन्द्रम् जय विराह इदो वा सातिवे दिवो वा पार्थे वा दधि इन्द्रम् इन्द्रनिर्गाधिरो बृहदिन्द्रवर्क्यभिः इन्द्रम् वाणीः अनौषधः इन्द्रनिर्धरयोस्त च संमिश्र आवतोयुधाः इन्द्रो वज्रैः अन्ययाः इन्द्रो दीर्घाज रक्षसाधूर्यम् रोहयत् दिविरत्रिमैरय इन्द्रवाजेषु नोपसहस्तप्रधरेषु च उग्रमुग्राभिरोधिभिः इन्द्रम् वयम् वाह सन इन्द्रवर्भे हवामहे विरम् वृत्रे वज्रिणम् सदाषर्णमुञ्चलम् धत्रा दावन्नप अस्मभ्यम्रतिष्कृतः तुञ्जे तुञ्जे उत्तरे स्तोम इन्द्रस्य वज्रिणाः वरिन्द्रे अस्य सुष्ठुतिम् पृषाः यूथे वयमम् सृगः कृष्टीत्यप्रचष्कृतः एकश्च ऋषी मधूना विरज्यति इन्द्रः पञ्चक्षितीना इन्द्रम् विश्वतस्परिहवा अस्माकमस्तु केवलः येन्द्र नथिम् रजिम् धजित्वारिशिष्ठभूतरे भरा निजमुष्टिहत्यरुणधामहे पोता सोऽवता इन्द्रपोता सा वयम् वज्रम् घनादेवहि जये महो युधिस्पृधाः वयम् सूरेः भयस्त्रे धरिन्द्रयाः युजा बयं, सासक्याम सह्याम पृतन्यतः महाविन्द्रपरश्चनुमाभि त्वमस्तु जोर्न प्रधि नशवायाचिरायवाह कक्षिस्वरव मुद्रजी उकुदा सोनृदी पक् नाशु एवा हि ते विभोतररूप इन्द्रमावते सद्यश्चित् सन्दी दासुरे एवाहिते स्तोप इन्द्रम् च शंस्या इन्द्रायीतरे इन्द्रहिमत्सन्धसो विश्वेश्रोमपर्वभि महात्मभिष्टिरोचसा एवेन सृजता सुते मन्दिमिन्द्राय मंदी मन्दिरे चक्रिम् विश्वा ऋषचक्रादेशक्रमन्तिर्विश्वचर्षणे स्वदेश्वा अशक्रमिन्द्रिरः प्रथित्वा मुदरहासत अजोः पम्पतिम् सञ्चोहोदय चित्रपर्वाग्राध इन्द्रवरेण्यम् असहगिरितेभो प्रभो पस्मान्सु तत्र चोदयेन्द्रराजे नभस्पतः तु विद्युम्न यशस्वतः सङ्गोमादिन्द्रवाजावदस्मे पृथुश्रवो बृहद् विश्वाजुर्धे ह्यक्षीणम् अस्मेधे हि श्रवो बृहद्युम्नम् साहस्रसाधवम् इन्द्रे ऋषाः वसो इन्द्रम् वसोपजङ्गेऽर्भिर्वृणन्त हृग्मयम् भोमगन्तारभूतये ्याः कसय बृहत्प्रहतये तर्हि इन्मायशोवर्तति